अतः श्रीबृहन्नारदीये पुराणि पुरुषोत्तममासमाहात्मे मलमासविज्ञप्तिर्नाम चतुर्थोऽध्यायः श्रीनारायण उवाच शृणुनारदवक्षेऽहमलोकानां हितकाम्ययाम् अधिमासेन यत्प्रोक्तं हरेरग्रे शुभं वचः अधिमास उवाच अजिनाथ कृपानिधे हरे न कथं रक्षसि मामिहागतं कृपणं प्रबलैर्निराकृतं मलमास्येत्यभिधां विधायमि शुभकर्मणिवर्जितं हि मां निरधीशं मलिनं सदैव तैः अवलोकयतो दयालुतां क्व गता तेद्यकठोरता कथं वसुदेववराङ्गना यथा खलकंसानलतस्सुरक्षितं कथं न तथा द्रुपदस्य सुता यथां द्रुपदस्य सुता त्वया खलदुःखं खलदुःशासनदुःखतो वितां वद मां शरणागतं कथं तथाद्यावसि न वत्सलं यमुना विशतोभिरक्षिता पशुपालाः पशवो यथा त्वयागतं पशवः पशुपास्तदाङ्गनं पशवः पशुपास्तदङ्गनावितादावधनञ्जयाद् यथा पृथिवीपतयो यथा वितं मगधेशालयबन्धनात् त्वयं वद माद्यावसिदीनवत्सलु गजनायक एत्य रक्षितो झटिति ग्राहमुखाद्यथा त्वया वद मां शरणागतं कथं न तथा विज्ञाप्य भूमानं विररामनिरीश्वरः मलमासोऽश्रुवदनस्तिष्ठन्नग्रे जगत्पतिः तदानीं श्रीहरिस्तूर्णं कृपया प्लावितो वाच दीनवदनं मलमासं पुरस्थितम् श्रीहरिरुवाच वत्स वत्स किमत्यन्तं दुःखमग्नोऽसि साम्प्रदम् एतादृशं महद्दुःखं किं ते मनसि वर्तते त्वामहं दुःखसम्मग्नम् उद्धरिष्यामि मा शुचः न मे शरणमापन्नः पुनः शोचितुमर्हति इहागत्य महादुःखी पतितोऽपि न किमर्थं त्वमिहागत्य शोकसंमग्नमानसः अशोकमजरं नित्यं सानन्दं मृत्युवर्जितं वैकुण्ठमीदृशं प्राप्य कथं दुःखान् वितो भवान् त्वामत्र दुःखितं दृष्ट्वा वैकुण्ठस्थाः सुविस्मिताः किमर्थं मर्तुकामोऽसि तन्मे वत्सवदाधुना श्रुत्वेदं भगवद्वाक्यं विभार इव श्वासोच्छ्वासमायुक्त उवाच मधुसूदनम् किञ्चिदप्यत्र संसृतौ आकाश इव सर्वत्र विश्वं व्याप्य व्यवस्थितः चराचरगतो विष्णुः साक्षी सर्वस्य विश्वदृक् कूटस्थे त्वयि सर्वाणि भूतानि च व्यवस्थयां संस्थितानि जगन्नाथ न भवता विना किन्न जानासि भगवन् निर्भाग्यस्य मम व्यथां तथापि वच्मिहेनाथ दुःखजालमपावृतं तादृशं नैव न श्रुतं नावलोकितम् क्षणालवामुहूर्ताश्च पक्षामासादिवानिशं स्वामिनामधिकारैस्ते मोदन्ते निर्भयाः सदा न मे नाम न मे स्वामी न हि कश्चिन्ममाश्रयः तस्मान्निराकृतः सर्वैः साधिदेवैः सुकर्मणः निषिद्धो मलमासोऽयं इत्यन्धो वटगः सदां तस्माद्विनष्टुमिच्छामि नाहं जीवितुमुत्सहि कुजीविताद् वरं मृत्युर्नित्यदग्धः कथं स्वपेत् अतः परं वक्तव्यं नावशिष्यसि परदुःखा सहिष्णुस्त्वमुपकारप्रियो मतः वेदेषु च पुराणेषु प्रसिद्धः निजधर्मं समालोच्य यथा रुचि तथा कुरु पुनः पुनः पामरेण न वक्तव्यः प्रभुर्महान् मरिष्येहं मरिष्येहंष्येऽहं इत्युक्त्वा मलमासोयं विररामविधेः सुत ततः पपातसहसा सन्निधौ श्रीरमापतेः तत्र पतितं दृष्ट्वा संसज्जाता सुविस्मिता इति श्रीबृहन्नारदीये पुराणे पुरुषोत्तममासमाहात्म्ये मलमासविज्ञप्तिर्नाम चतुर्थोऽध्याय श्रीपुरुषोत्तमार्पणमस्तु